अथर्ग्वेदे सप्तमाष्टके चतुर्थोऽध्यायः असर्जिवक्वारध्येजथाजौ धिया मनोता अप्रथमो मनीषी न शश्वसा आरो अधिसानो अव्येजन् दिवह्निंसदनान्यच्छ वेते जनस्य दिव्यस्य गव्यैरधिकुमानो न हुष्येभिरिन्दोः प्रयोभिरमृतो मर्त्ये भृजानो विदर्गोभिरद्भिः कृषा वृष्णे रोरुपदम् सुरस्मै भवमानो रुषतीर्थे पयोगोः सहस्र मृक्वा पथिभिर्वचोस्पति सूरो अन्नम् यादि वृजा दृढातिद्रक्षस्रदां त्रिपुनान इन्द ऊर्णुहि पिबान् वृश्चोपरिष्टात्तु यतापथे न जे अन्ति दूरादुपनायमेषाम् सप्रत्नवन्नभ्यसे विश्वपारसूक्ताय पथ कृणुहि प्राजाः ये दुश्यहासो मनुषाः बृहन्तस्तां स्ते अश्याम पुरुकुरुक्षो एवापुनानो अपस्वा अर्कामभ्यन्तोकातनया निभूरि ो नः सूर्यजयरिशुवानो हरिहंसु पवित्रे रसो न सर्जिसन जयानः आपच्छोकमिन्द्रियम् भूयमा नः प्रतिदेवाम् अजुषत प्रयोभिः अच्छाः निरक्षाः असरत्पवित्रेण मदधाः नः कविरस्ययोनौ सीदन्होते एव सदने च मूषूपे एव मग्मन् ऋषयः सप्तविप्राः वसुमेधा गा तु विद्विश्वदे एव सोमः पुनानः सद एति नित्यम् भुवद्विश्वे विश्वे देवास्त्रय एकादशाः दशस्वधानो अंव्ये भृजम् दित्तारद्यः सप्त जह्वीः तन्नु सत्यम् पवमानस्यास्तु यत्र विश्वे एकारवः सन्न सन्दोर्यजह्ने अकृणोदु लोकम् रामन्वनन्दस्य वेकरभिकम् परिसप्ने एव पशुमान्त्य होताराजानसत्यः समिलीर्यः सोमः पुरानः कलशा अङ्गयासीत्सेतम् एषो साकमुक्षो ओमर्जयन्त आरोदशधीरस्य धीतयो हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणन्ननक्षे अत्योनवाजे संमातृभिर्नशिशुरुरावसानो वृषा आदुधम् रे गुरुवारोह अग्भिः मर्यो न योषामभिनिष्कृतम् यन् सङ्गच्छते कलश उश्रियाभिः उदप्रिप्य ऊधरज्ञाः या इन्दर्धाराःभिः सजते सुमेधाः मूर्धानङ्गावःपयसा तवोष्पभिश्रेणन्दिवसुभिर्लरिक्तैः स नो देवेभिः पवमानरथेन्दो रजिमश्विनम् वावशानः अधिराजतामुषते पुरन्धिरस्मत्र्या अगाधावदेवसूराम् नो नो रजिमुपमास्पनुवन्तम् पुना नो वाताप्यम् विश्वश्चन्द्रम् प्रवन्दिरिन्दोतार्यायः प्रातरुमक्षोधियापसुर्यगम्यात् अधियदस्मिन् वाजिनी पशुभस्पर्ध्वन्तेधियः सूर्येण अपो वृढानः पवते कवीयन्मृजन्न पशुवर्धनायमन्म जिताभ्योर्न्वन्नमृतस्य दिताव रामस्पर्भिदे भुवनानि प्रथन्त जियः किन्दानास्वसरेण गापगतायन्ते एरभिवा वश्य इन्दुम् परि यत्कविः काव्याभरते शूरो न रथो देवे सुयसोभर्ता आय भूषण् दक्षाः राजः पुरुभो सुनम्याः श्रिये जातः श्रिय आनिर्याय श्रियम्बयो जतृभ्यो दधाति श्रियम्बसा आना अमृतत्वमाजम्भवन्ति सत्या समिथामितद्रौ इषमोर्जमभ्या अर्षाष्पङ्गामुरुज्योतिः विश्वानिः सुषः कालितुभ्यम् भवमानबाधसे सोमशत्रून् कलिक्रन्तिहरिरासृज्यमानस्यी जन्मनस्य जठरे पुनानः यतः कृणुते निर्णिजङ्गा अतो ओमतेर्जनयतस्वधाभिः हरिसृजानः पथ्या अमृतस्येयर्ति वाचमरिते वरावम् देवो देवानाङ्गुह्या आदिनामाविष्कृणोति बर्हिषि प्रवाचे अपामिपेदोर्मयस्तत्पुराणाः प्रमनीषा ईरदेशो ममिच्छा नमस्यन्तेरुपचयन्ति सञ्चाचभिषन्त्युषते रुशन्तम् तम् मर्मजानम् महिषन्नसाना आपंसन्दुहन्त्युक्षणम् गिरिष्ठा म् वा आवशानम् मतयः स गन्ते त्रितो विभक्तिवरुणम् समुद्रे यिष्यन्वाचमुपभक्ते वभोतुः पुना न भद्रान् कृण्वन्निन्द्रहवान् सखिभ्य आसोमो वस्त्रा आरभसा निदत्ते समस्य हरिम् हरजो मृजन्त्यश्वहयैरनिशिलम् नमोभिः आतिष्ठति रथमिन्द्रस्य सखा आविद्वाङ्गेनासुमतीयात्यच्छा स नो देवदेवता ते पवस्पमहेशो मप्सरथ इन्द्रपानाः गृण्वन्नपो वर्षयन् जामुते मामुरो रा नो वरिवस्यापुनानः अजीतये हतये पवस्वस्वस्तये ए सर्वता आतये बृहते तदृशन्ति विश्व इमे सखा आयस्तदहम् वश्मिपवमानसोमान् सोमः सो पवते जनितामतेनाञ्जनिता जिवो जनिता जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ब्रह्मादेवानाम् रवेः कवीनामृषन्विप्राणाम् महिषो मृगाणाम् श्ये नो गृध्राणाम् स्मृतिर्वनानाम् सोमः पवित्रमध्येतिरेभन्न प्रावे विपद्वाच ऊर्मिन्नसिन्धुर्गिरः सोमः पविमानो मनीषा अन्तः पश्यन् वृजनेमावराण्या तिष्ठति विषभोगोषु जानन् समत्सरः पृत्सुवन्दवातः सहस्ररेता अभिवाचमरुष इन्द्रा आजेन्द्रो भवमानो मनीष्या अंशो रूर्मिमीरजगा इषण्यन् परिप्रियः कलके ए देववार सहस्रधारः शतवाज इन्दुरुर्वाजेन शक्तिः समनादिगाते स पूर्व्यो वसुभिज्जायमानो मृजानो अक्षुदृहानो अद्रौ अभिशस्ति पाभुवनस्य राजा आविरद्गातुम् ब्रह्मणे पूजमानः त्वया हिनः पितरः कर्माणि चक्रुः पवमानधीराः वन्वन्नवा आतः परिधेङ्ग्रपो अर्नुवीरेभिरश्व मघवा आपवानः यथापवथापनवेपयोधा अमित्रहापरि को विद्धिस्मान एवापवस्त्वद्रविणन्दधा आन इन्द्रयसन्दिष्ठजनजायुधानि पवस्तसो मधु माङ्कृता पापोऽवसा आनो अधिशानो अभद्रोणाः निघृतवाहन्तिमो मत्सर इन्द्रपानाः वृष्टिम् दिवश्य तथा आरः पवस्वसहस्रसा वा जयुर्देव वि एतौ संसिन्धुभिः कलशे एवावशानः अयो न दुग्धमरितेर्भिरकारुः सुयवो न गोल्ढाः स्वायुधः सोतृभिः पूयमा नोभ्यर्षगुह्यञ्चारुनाम अभिवाचम् तप्तिरिव श्रवस्याभिवायुमभिगादे एव सोम शिशुन्यज्ञानम् भर्यतम् व्रजन्ति शुम्भन्ति बह्निम् मरुतो गणेन ृषिमनाय ऋषिकृत्स्पर्शाः सहस्रणीथपेः कवीनाम् तृतीयन्धा मम ृषेव यूथापरिकोशमर्षन् कनिक्रदच्छम्भो ओराविवेश पवस्वेन्दोपवमानो महोभिः करिक्रदत्तरिवारा अण्यर्ष क्रीडन् शम्भो ओराविष पूजवान इन्द्रन् ते रसोमधिरोपमत्तो प्रास्य धारा बृहतेरसृग्रन्धक्तो गोभिः कलशाङ्काविवेश म कृण्वन् सामन्योऽपि पश्चित्क्रन्दन्नेत्यभिषक्षुर्नजामिम् अपघ्नन्नेषि पववानशत्रोऽयान्नचारोऽगेत इन्दोः सीदन्वने एषु च कुरोसो वः पुनः कलशेशु सत्ताः आतेरुतः पवमानस्य सोमजोषे भयन्ति सुदुःखाः सुधाराः हरिरानीतः पुरुवारो अप्सरिक्रलशे देवजूना अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्तलसम् सुतः पवित्रम् पर्ये दिलेभन्विते वसन् न पशुभान्ति होरा भद्रावस्त्रा समन्या आवसानो महान् कविर्निवदनादिशंसन्ने आवच्य स्व जम्बोः पूयमानो विचक्षणो जागृभिर्देव भीतो समुप्रियो मृद्यते सानो अव्ये यशस्तरो यशसांशयितो अस्मे अभिस्वरथन्वा पूयमानो यूयम्बास्वस्तिभिः सदानः मृगायदाभ्यच्चाम देवान् सोमम् हिनोतमहते धनाय स्वादुःपवाते अधिवारमं यमादे एदाजिकलशन्दे पयुर्नाः इन्दुर्देवानामुपसख्यमायन् सहस्रधारः पवते मदाय दृभिस्तवा नो अनुधामपूर्वमगन्निन्द्रम् माते सौभगाय स्तोत्रे राजे हरिरर्षा पुनार इन्द्रम् मदो ओ गच्छतु ते देवैर्या आहि सरथम् राधो अच्छा आजूयम् वा आत स्वस्तिभिः सदा आनः प्रकाव्यमुशने एव ब्रुभाणो देवो देवानाञ्जनिमा विभक्ति महीं रतश्रुतिबन्धुः पावकः पदावराहो अभ्ये एतिरेभन् प्रहंसास्रुपदम् मन्युमच्छापादस्तम् मृषगणायासु अम्बवमानम् सुखा यो दुर्वर्षम् साकम् प्रवदन्ति बाणम् सरम् मल उरुगायस्य ज्योतिर्तम् विमतेन गावाः वरेण सङ्कृनुतेमशृम् गोरिवाहरिप्रदृशेन क्ल्यः इन्दुर्वार्ये पवते गोन्यो ओघा इन्द्रेशोभत्सः इन्द्रन्मदाय हन्तिरक्षो बाधते पर्यरातीर्वरिव कृण्वन् नृजनस्य राजा अधारया बद्धाः प्रदारस्तिरोपवते अद्रियुग्धः इन्दुरिन्द्रस्य रक्षञ्जुषाणो देवो देवस्य मत्सरो मदाय अभिप्रियाणि पवते पुनानो देवो देवान् स्वे नरसे इन्दुर्धर्मा अण्डिरुषावसा नो दशक्षिपो अव्यसा नो अव्ये विषाशोणो अभिगनिकृतद्गानरयन् नेति पृथिवीमुदद्या इन्द्रस्येव मग्दुराशृन्न आयो प्रचेतयन्नर्षति पवमानः सन् परिमे कृन्निन्द्राय सोम परिशिच्यमाहानः एवापवस्वमधिरोमदायोदग्राभस्य न वयन्वधस्नैः परिवर्णम् भरमाणो ऋषन् रङ्गं युर्णो अर्षपरिसोमसिक्तः दुष्टेन इन्दो सुप्रथाः सुखान्युरुपमस्वपरिवांसि कृने भविष्यद्दुहितानि विघ्नन्न सन्मसानोऽहं ये ृष्टि स्तुते एवम् अवराम् इन्दो वायोन्थिन्न विष्यग्रथितम् पुरान ऋजुम् च गातुम् ऋचिरम् च सोमात्यो न क्रतो हरिदासृजानो दुष्टोपदा आयदेवता आत इन्दोपरिष्णुना आधन्वसानो अव्ये सहस्रधारः सुरभिरब्धः परिस्रमवायसातो दृषह्ये अरश्मा नो ये एरथा अयुक्ता अत्या आसो न सृजानास आयौ एते शुक्रासो अधन्वन्दिशो मा देवा आसस्तामुपयातापि एवान इन्दो अभिदेववे एतिम् परिश्रवणभो अर्णश्चमूषो सोमो आत्मभ्यङ्गाम्यम् रहन्तम् रयिन्द्रदातु वीरवन्तमुग्रम् तक्षद्य देमनसोभेनतो वा ज्येष्ठस्य वा धर्मणिक्षोरनीके आदे एमाजन्म रमावाहावशानाजुष्टम्पतिम् कलसेकाबिन्दुम् प्रदा आनुतो दिव्योदा आनुपिन्मरतमुदायपवते सुमेधाः धर्माभुवद्रजन्यस्य राजा प्ररश्जर्दशभिर्भारिभूम पवित्रेभिः पवमानो रजक्षा राजा आदेवानामृतमत्या आनाम् पिताभुवद्रयुपते एरयिणामृतम् भरत्सुभृतञ्चार्विन्दोः अर्वा अङ्गिवश्रवसे सातिमच्छेन्द्रस्य पाजोरभिभीतिमर्ष सरःसहस्राः बृहतीरिशो दाभवा सोमद्रविडो वित्पुनानः देवाव्यो नः परिषिच्यमा नाः क्षयम् सुवीरम् धन्वन्तु सोमाः आयज्य वस्वमतिम् निष्फला राहोता रोनतिवियजो मनोरमाः एवादेव देवता देववस्वमहेशोमप्सरसे देवपानाः महश्चिद्धिष्मसि हिताः समर्ये कृधिष्ठाने रोदसे पुनानः अश्वो न क्रतो नभिर्यैरजिष्ठा आपवस्मसो मनसन्न इन्दो शरन्धारा देवजातास्रग्रन्थसहस्रमेनाः कवयो मृजन्ति इन्दो असमित्रम् दिव आपवस्व पुर एतासि महतो धनस्य दिवो न सर्गाः अससर्ग्रवन्धाम् राजानमित्रम् प्रमिना तिथीराः पितुर्नपुत्रः क्रतुभिर्यतान आपवस्पभिषे अस्या अजे एतिम् प्रदेधा रामधुरतेरसर्ग्रन्दान्यत्पोतो रा अत्येष्यव्यान पवमानपवसेधा भगो अनिक्रदनुपन्था अमृतस्य शुक्रो विभास्य मृतस्य कामा स इन्द्राजपवसे मत्सरवान्भिन्वानो वाचम् मतिभिः कवीनाम् यव्यस्वपर्णोपचक्षितो मिन्बन्धाराः कर्मणा देववीरौ हेन्दो विषकलशम् सोमधानम् क्रन्दन्ये सूर्यस्योपरश्मिम् ्रोवाच ईरयति प्रबन्धिरथस्य धीतिम् ब्रह्मणोपदेशा गावो यन्ति गोपतिम् पृच्छमाना सोमीयन्ति मतयोनाः सोमम् गावो धेनवो वावशानाः सोमम् विप्राः मतिभिः पृच्छमानाः सोमः सुतः पूयते अजमानः सोमे अर्कास्तिष्ठुहस्तवन्ते नः सोम परिषिच्यमान आपवस्व पूजमाहानः स्वस्ति इन्द्रमा विषमृहतारवेणवर्धजावातम् जनजापुरन्धिम् आजाग्रविर्विप्रहृता मतीनाम् सोमः पुरानो असदच्छमोषो सो अध्वर्यवो ओरधिरासुहस्ताः सपुनान उपसूरेण धातोभे प्रियादिद्यस्य प्रियसा स ऊती सदोधनम् वारिणेन प्रयम् सत् समर्थिता बद्धनः पूजमा नः सोमो मे द्वाम् अभिनो ज्योतिषावीत् येना नः पूर्वे पितरः प्रदग्दाः सर्विदो अभिगाद्रिमुष्टन् अग्राम् पुरुषाः पवित्रे अधिसानो अव्ये बृहत् सोमो ओमावृधे सुमान इन्दोः महत्तत्सोमो ओम हिषश्चकारा वाञ यद्गर्भो वृणीतदेवान अदथादिन्द्रे पवमानवो योजनयत्सूर्ये ज्योतिरिन्दोः मत्स्य बाजुमिष्टजेरातसे त मत्स्यमित्रावरुणा पूयमाहनः मत्स्यषद्धोदम् पृथिवेदे एव ऋजुः च अभिश्रेणो रामिन्द्रयम् सखायः मद्भस्सूदम्बवस्वस्वभुत्सम् वीरञ्जन आपवस्वाभगम् च स्वरस्वेन्द्रायपवमान इन्दो रजिञ्जन आपवस्वा समुद्रात् सोमः सुतो धारयात्यो न हित्तासिन्धुर्ननिम्नमभिवाध्यक्षाः आयो निम् वन्यमसरत्त्वधानः समिन्दुर्गोभिरसरत्समद्भिः एषस्य ते एपवत इन्द्र सोमश्चमोषुधेर उशते तपस्वान स्वर्त्यक्षारथिरः सत्यशुष्मः कामो न एष प्रत्नेन वयसा पुनान स्थिरो वर्पांसि दुहितुर्दधा आनः वसा आनः शर्म त्रिवरोऽवप्सुहोते एवयाति समने शुरेभन्य नो नस्त्वं रथिरोदेवसोमपरिस्रवचम्बो पूयमानः अप्सु स्वादिष्ठो मधुमान् नृता वा देवोदयः सभिता सत्यमन्ना अभिवायम् भीत्यर्षा गृणानोभित्रावरुणा भी पूयमानः अभीनरम् धीजपनम् रथेष्ठामभीन्द्रम् मृषणम् वज्रबाहुम् अभिवस्त्रा सुपसनान्यर्षाभिधेनोः सुलुघाः पूयमानः अभिचन्द्राभर्तवेनोभिरण्याभ्यश्वान् रथिनो देवसोम अभिनो अर्ष दिव्यावसो ओन्यभिश्वा पार्थिवापूयमानः अभियेलद्रविणमश्नवाभ्या अर्षेञ्जमलग्निमन्नाः अयापवापवस्वैरावसो निमांश्चत्वन्दोसरशरिप्रदवन्दा रत्नश्चिदत्रवादो न योतः पुरुमेधश्चित्तकवेदनन्दात् उत न एनापवयापवस्वादिश्रुते श्रवा षष्टिम् सहस्राक्षन्नभक्बन्धो न नवद्रणा आया महेमे अस्य वृषनाम शोषेमांश्चत्वे वापृशने वा बाप भत्रे अश्वा आपयन्निकुतस्नेहयच्चापामित्राम् अपाचिरो अचेतः संत्रे पवित्रा विततान्येष्यन्वेकन्धावसि पूयमानः असि भगो असि दात्रस्य दातासि मघवा आमघपद्भ्य इन्दो एष विश्ववित्पवते मनीषेशो मो विश्वस्य भुवनस्य राजाः द्रप्साङ्गीरयन् विरथेऽस्मिन् दुर्विवारमव्यम् समयाति याति इन्दुम् महिषा अलब्धाः पते एपन्ति कवयो न गृध्राः इन्वन्ति धीराः दशभिक्षिपाभिः समञ्जते रूपमपाम् रसे त्वया आभयम् पवमानेन सोमहरे एकृतं इति यामशश्वत तन्नो अमित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी सद्यो अभिनो अवाचसा तमम् रयिमर्ष पुरुस्पृहम् इन्दो असहस्रफर्णसन्तु विद्युन्नम् बिभ्रासमहम् परिष्यसु अव्ययम् रथेन वर्माव्यम् इन्दुरभिद्रुणा आहितो हि यानो धारा परिश्य सुहारो अक्षा इन्दुरौ ये वत्युरः धाराय ऊर्ध्वो अध्वरे भ्राजानैतिगव्यः सहि वन्दे वशस्वेव समर्थायदाशुषे इन्दो असहस्रिणम् त्रयिंशतात्मानम् विवाससि भजन्दे विपाससे पुत्र हन्वसो वस्वः पुरस्पृहाः निनेदिष्ठतमा इषस्यामसुन्नस्याध्रिवो यश संस्पृसारो अद्रिसंहतम् स्नापयन्त्योर्मिणम् परित्यम् हर्यतम् हरिम् बभृम् गुणन्ति वारेण यो देवान्विश्वान्यक्परिमरेण सह गच्छति अस्य बोह्यवसापान्तो दक्षसाधनम् यः सूर्यशुश्रो बृहद्दधे स्वा समा यज्ञेषु मानवे इन्दुर्जनिष्ठरोदसी देवो दे एवे गिरिष्ठा अस्रे ए सन्तम् तु विश्वे इन्द्रायसोमपातवे वृत्रघ्ने परिषिच्यसे नरे एदक्षिणावते देवायसदनासृे ए तेभ्रत्नासो व्युष्टिषु सोमापवित्रे ए अक्षरन् अपप्रोथम् तम् सखायः पुरोरुचम् योजम् वयम् च सूरजाः पश्यामपाचगन्धम् समेमवाचपत्यम् आहर्यताय धृष्णवेधनुस्तन्वन्ति पुंस्यम् शुक्राम् वजन्ति सुराय निर्मिलम् विपामग्रे हेयुवाः अधक्षपा परिष्कृतो वाजाम् अभिप्रगाहते यदे विवस्पतोऽधिजो हरिम् हिन्वन्ति जातवे तमस्य मद्ययामसिमरोज इन्द्रपातमः गङ्गाव आसभिद्वधुः पुरा नूनम् च सूरयाः गङ्गाथया पुराण्या पुनानमभ्यनूषत उतो नृपन्त धीतयोः देवानान्नामभिभ्रदेः तमुक्षमाणमव्यदेवारे पुनन्त्रिसर्णसिम् दोतन्न पूर्वचित्तय आशासते मनीषिणाः स पुनानो मदिन्तमस्सो वश्चमोषु सीदति पशौ नरेत आतत्पतिर्वचस्यते धियः समृद्यते देवो देवेभ्यः सुतः विजेयदा सुतन्द्रतिर्महीरकोऽपि गाहते सुत इन्दो पवित्र इन्द्रायमत्सरिन्दमश्चमोऽश्वानिषे एजसे अभिनवन्दे अद्रुहः प्रियमिन्द्रस्य काम्यम् वत्सन्नपूर्व आजुनिजातम् रिहन्ति मातराः गुणान इन्द्रवाभरसो मद्विवरहसंरयिम् त्वं वसोरिपुष्यसि विश्वादिदाशुषो गृहे त्वन्धियम् मनोजुजम् सृजा तम्बसो अरिपार्थिवा दिव्याजसोमपुष्यसि परिजे जिग्ुषो अयथा धारा आसुतस्य धावति रम्भमाणाव्या अव्ययम्बारम् वाजीवसानसिः रत्रे दक्षा आयनः कवे पवस्त्वसोमधारया इन्द्रा आय पातवे सुतो मित्राय वरुणाय च इन्द्रायसोमविष्णवे देवेभ्यो मधुमत्तमः त्वाम् रिहन्ति मातरोहरिम् पवित्रे अद्रुहाः वत्सञ्जातन्न धेनवः पवमानविधर्मणि पवमानमहिश्रवश्चित्रेभिर्यातिरश्मिभिः श्रद्धन्तमाम् श्रीघ्नदे विश्वानिदाशुषो गृहे त्वन्द्याञ्च महिंव्रतपृथिवीम् चातिजद्भृषे प्रतिदाञ्जधामानमहि त्वना इति सप्तमाष्टके चतुर्थोऽध्यायः